अथ एकपञ्चाशदधिकशततमोऽध्यायः वैशम्पायन उवाच तत्र तेषु शयानेषु हिडिम्बो नाम राक्षसः अविदूरे वनात्तस्माच्छालवृक्षं समाश्रितः क्रूरो मानुष मां साधो महावीर्यपराक्रमः प्रावृज्जलधरश्यामः लिंगाक्षो दारुणाकृति दंष्ट्राकदन पिशिधादी लंब स्फिग्लब जठरोक्त श्रुशिरोह महवृक्षगलस्कंध शंकुकर्णो विरूपरूपः पिङ्गाक्षः करालो घोरदर्शनः शिशितेत् सुधार्तश्च ता न पश्यद्यदृच्छया ऊर्ध्वाङ्गुलिः शिरोरुहान् जृम्भमाणो महावक्त्रः पुनः पुनरवेक्ष्य हृष्टो मानुषमांसस्य महाकायो महाबलः आघ्राय मानुषं गन्धम् भगिनीमिदमब्रवीत् उपपन्नश्चिरस्याद्य भक्षोऽयं मम सुप्रियः स्नेहस्रवान्प्रस्रवति जिह्वापर्येति मे मुखम् अष्टौ दंष्ट्रासु तीक्ष्णाग्राश्चिरस्यापात दुःसहाः देहेषु मज्जयिष्यामि स्निग्धेषु पिशितेषु च आक्रम्यमानुषं कण्ठम् आच्छिद्यधन्मनीमपि उष्णं नवं प्रपास्यामि फेनिलं रुधिरं बहु गी के शेरते नमाश्रिताषो बलवान्गंधो घाण तर्पयतीव मे हत्वैतान सर्वा नयस्व मस्मद्षय सुभ्यो नैतेभ्यो भयमस्तिते एषामुत्कृत्य मांसानि मानुषाणां यथेष्टतः भक्षयिष्यावसहितौ कुरुतूर्णं वचो मम भक्षयित्वा च मांसानि मानुषाणां प्रकामतः नृत्यावसहितावावां दत्ततालावनेकषः एवमुक्ता हिडिम्बा तु हिडिम्बेन तदावने भ्रातुर्वचनमज्ञाय त्वरमाणेव राक्षसी जगाम तत्र यत्र स्म पाण्डवा भरतर्षभा ददर्श तत्र सा गत्वा पाण्डवान् प्रथया सह च जाग्रतम् त्वपराजितम् दृष्ट्वैव भीमसेनम् सा शालपोतमिवोद्गतं राक्षसी कामयामासारेणा प्रतिमं भुवि अयं श्यामो महाबाहुः सिंहस्कन्धो महाद्युतिः कम्बुग्रीवः पुष्कराक्षो भर्ता युक्तो नाहं भ्रात्रवचो जातो कुर्यां क्रूरूपसंहितं पतिस्नेहोऽति बलवान्न तथा भ्रातृसौहृदम् मुहूर्तमेव तृप्तिश्च भवेद्भ्रातुर्ममैव च हतैरेतैरहत्वातो मोदिष्ये शश्वतिः समाः सा कामरूपिणीरूपं कृत्वा मानुषमुत्तमम् उपतस्थे महाबाहुं भीमसेनं शनै, शनैः लज्जमानेव ललना दिव्याभरणभूषिता स्मितपूर्वमिदं वाक्यं भीमसेनमथा ब्रवीत् कुतस्त्वमसि सम्प्राप्तः कश्चासि पुरुषर्षभा केयं वै बृहती श्याम सुकुमारी तवा नघ शेते वनमिदं प्राप्य विश्वस्ता स्वगृहे यथा